महावाक्यरत्वे अष्टम प्रकरण अथ नेति ने विहाय यदशिष्य अवय ब्रह्म जीव बाधे प्रत्यग्भिन्नम् ब्रह्मैवावशिष्यते पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते कार्योपाधिरयम् जीवः कारणोपाधिरेश्वरः कार्यकारणताम् हित्वा पूर्णबोधोऽवशिष्यते ततः स्तिमितगम्भीरम् न तेजो न तमस्ततम् अनाख्यम् अनभिव्यक्तम् यत्सत्किञ्चिदवशिष्यते सङ्कल्पमनसि भिन्ने न कदाचन केनचित् सङ्कल्पजाते गलिते स्वरूपमवशिष्यते महाप्रलयसम्पत्तौ यसत्ताम् समुपागते अशेषदृश्ये सर्गादौ शान्तमेवावशिष्यते खेदोल्लासविलासेषु स्वात्मकर्तृतत्यानया स्वसङ्कल्पे क्षयम् याते समतैवावशिष्यते समता सर्वभावेषु यासौ सत्यपरा स्थितिः परमामृतनाम्नीषा समतैवावशिष्यते कालत्रयमपेक्षित्वा हेनायाश्चैत्यबन्धनैः च्युतश्चैतन्युपेक्षित्र्याः शमतैवावशिष्यते सा हि वाचामगम्यत्वादसत्तामिव शाश्वतीम् नैरात्म्यसिद्धान्तदशामुपयाते अवशिष्यते यावद्यावन्मुनिःश्रेष्ठ स्वयं सन्त्यज्यते अखिलम् <coughs> तावत्तावत् परालोकः परमात्मैव शिष्यते अभ्यासेन परिस्पन्दे प्राणानां क्षयम् आगते मनः प्रशममायाति निर्वाणमवशिष्यते ज्ञेयवस्तु परित्यागे विलयं याति मानसम् विलयम याते यतो वाचो विकल्प मन सेलयम विकल्प ते कल्यमशिष्यचो निवर्तंतेकलकलनाताक संक्षो पदम तदवशिष्य चिद्योम किलास्ती परवर्जित सर्वत्रासम्भवच्चैत्यम् यत्कल्पान्तेवशिष्यते पञ्चरूपपरित्यागादर्थरूपप्रहाणतः अधिष्ठानम् परम् तत्त्वमेकम् सच्चिष्यते महत् सर्ववेदान्तसिद्धान्तसारम् वच्मे यथार्थतः स्वयम् मृत्वा स्वयम् भूत्वा स्वयमेवावशिष्यते अशब्दम् अस्पर्शम् रूपम् अव्ययम् तथा रसं नित्यम् अगन्धवच्यत् अनाद्यनन्तम् महतः परम् ध्रुवम् तदेव निरामयम् इति सार्धान्तिकावशिष्टवाख्याने षट्त्रिंशत् अष्टादशं प्रकरणं समाप्तम्